你呢 प्रवक्ष्यामि तन्मयत् त्वमथो भवेत् गायत्री हृदयस्या स्यात्प्यहमीवर्षि स्मृत अस्य श्री गायत्रीहृदयस्य गायत्री गायत्रीच्छन्दः परमेश्वरी गायत्री देवता गायत्री हृदयजपे विनियोगः अथार्थन्यासः द्यौर्मूर्ध्नि दैवतम् दन्तपङ्क्तावश्विनौ उभे सन्ध्ये चोष्ठौ मुखमग्नि जिह्वा सरस्वती ग्रीवायां तु बृहस्पतिः स्तनयोर्वसवोष्टौ बाह्वोर्मरुतः हृदये पर्जन्यः आकाशमुदरम् नाभावन्तरिक्षम् कट्योरिन्द्राग्नि जघने विज्ञानघनः प्रजापतिः कैलाशमलये उरु विश्वे देवा देवाजान्वोः जंघायां कौशिक गुह्यमने ऊरो पितर पाद पृथिवी नखानि मुहूर्तानि, मुहूर्ता अस्थिशु अश्रृंसमृतव संवत्सरा वै निमिषम् अहोरात्रावादित्यश्चन्द्रमा प्रवराम् दिव्याम् गायत्रीम् सहस्रनेत्राम् शरणमहम् प्रपद्ये ॐ तत्सवितुर्वरेण्याय नमः ॐ तत्पूर्वाजयाय नमः प्रातरादित्याय नमः तत्प्रातरादित्यप्रतिष्ठायै नमः प्रातरधियानो रात्रिकृतं पापन्नाशयति सायमधियानो दिवसकृतं पापन्नाशयति सायं प्रातरधियानो अपापो भवति सर्वतीर्थेषु स्नातो भवति सर्वदेवैर्ज्ञातो भवति अवाच्यवचनात् पूतो भवति अभक्ष पूतो भवति अभोच्य पूतो भवति अचोष्यचोषणात् पूतो भवति असाध्यसाधनात् पूतो भवति दुष्प्रतिग्रहशतसहस्रात् पूतो भवति सर्वप्रतिग्रहात् पूतो भवति पङ्क्तिदूषणात् पूतो भवति अनृतवचनात् पूतो भवति अथा ब्रह्मचारी ब्रह्मचारी भवति अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टम् भवति षष्टिशतसहस्रगायत्र्या जप्यानि फलानि भवन्ति अष्टौ ब्राह्मणान् सम्यग्ग्राहयेत् तस्य सिद्धिर्भवति इदम् नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यते ब्रह्मलोके महियते इत्याह भगवान् श्रीनारायणः